हरि ओम् श्रीसीतारामचन्द्राभ्याम् अथ श्रीमद्वाल्मीकि रामायण अयोध्याखण्डे द्वा त्रिंश सर्गः सीतया सह श्रीरामेण वासिष्ठम् सुयज्ञम् आहूय तस्मै तत्पत्ने च महार्हा भूषण रत्न धन प्रभूतीनाम् दानम् स्वलक्ष्मणेन रामेण ब्राह्मणेभ्यो वटुभ्यो निजाश्रितेभ्यः सेवकेभ्यः त्रिजटाख्याय विप्राय सुजनेभ्यश्च धनस्य दानम् ततः शासनमाज्ञाय भ्रातु प्रियकरम् हितम् गत्वा स प्रविवेशासु स्वयज्ञस्य निवेशनं तं विप्रं मग्नगारस्थं वन्दित्वा सखेभ्यः गच्छ पश्यत्तम् वेश्म तथ सन्ध्यासा गोमित्रिण सह वृद्धम तो प्रावशत्म रम्यं राम निवेशनम तम वेदविदं वेद विधमरांजलित सह सुयनम चक्रम राघवोभ्निवासी मयर् मुख्य अंगद कुंडल शुभ स हेमसूत्रैर्मणिभिः केयुरैवलयैरपि अन्यै च रत्ने बहुभिः काकुत्स्थ प्रत्यपूजय स्वयज्ञम् तदोवाच राम सीता प्रचोदितः हारं च हेमसूत्रं च भार्यायै सौम्य हारय रशनां सीता दातुम् भिच्छत्ते सखी अङ्गदानि चित्राणि केयूराणि शुभानि च प्रयच्छति सखी तुभ्यम् पर्यङ्कमग्र्यासरणम् नानारत्न विभूषितम् तम् अपीच्छति वैदेहि प्रतिष्ठापयितुम् पयि नागशत्रुञ्जयो नाम मातुलोऽयम् ददो ते निष्कस्रेण विजपुङ्गव इत्युक्तस्तत्तु रामेण स्वयज्ञ प्रतिगृह्यत रामालक्ष्मणसीतानाम् प्रयुयो जिष शिव अथ भ्रातरमव्यग्रम् प्रियम् राम प्रियम् वदम् स्वमित्रिम् तम् उवाचेदम् ब्रह्मेव त्रिदशेश्वरम् अगत्यम् कौशिकम् चैव तौ भौ यसो मित्रे रत्ने सस्याम् विवाम्बुभिः तर्पयस्य महाबाहु गोस्रेणराघव सुवर्णार्यतेश्चैव मणिभिश्च महाधने कौसल्याम् च याशीभिः भक्तः पर्युपतिष्ठते आचार्यस्तैत्रियाणाम् अभिरूप च वेदवेत् तस्य यानम् च दासिश्च स्वमित्रे सम्प्रदापय कौशेयानि च वस्त्राणि यावत्तुष्यति सद्विजः सुतश्चित्र रथाचार्य सचिवये शुचिदोषितः तोषैनम् महेश्च रत्नैर्वस्त्रे धने तथा पशुकाभिश्च सर्वाभिः गवाम् दर्शशतेन च एषे मे कठकालाप भवो दण्डमानवः नित्यस्वाधायशीलत्वान् नान्यत् कुर्वन्ति किञ्चन अलसः स्वादुकामाश्च महतां चापि सम्मतः तेषाम् अशीतियानानि रत्नपूर्णानि दापय शालि वा सहस्रं च कञ्जनाथं च सौमित्रे गोसहस्रम् उपाकुरु मेखलीनां महासङ्घ कौसल्यां तुस्थितः तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय अम्बा यथा नो नन्दे च कौसल्या मम दक्षिणान् तथा द्विधान् सर्वान् लक्ष्मणाशय सर्वशः ततः पुरुषः शादूर तद्धनं लक्ष्मण स्वयम् यथोक्तम् ब्रह्मणेन्द्राणाम् अददा धनतो यथा अथा, अथा ब्रवीत् बाष्पगलान् तिष्ठतश्चोपजीविनः सम्प्रदाय सप्रदाय द्रव्यम् एकैकस्य उपजीवनम् अथा ब्रवीत् बाष्पगलान् तिष्ठतश्च उपजीविनः सप्रदाय बहु एकैकस्य उपजीवनम् लक्ष्मणस्य चेत् भीष्म गृहं च यदिदम् मम ऐशून्यम् कार्यमेकैकम् एक यावदागमनम् या मम इत्युक्त्वा दुःखितम् सर्वम् जनम् तम् उपजीविनम् उवाचेदम् धनाध्यक्षम् धनमानीयताम् ततोस्य धनमाजर्हुः सर्वैोपजीविनः स्वराशि सुमहन् तत्र दर्शनीयो ह्य दृश्यते ततः स पुष्यव्याघ्रे तद्धनं सः लक्ष्मणः द्वियोभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यपादयेत् तत्रासीत् पिङ्गलो गार्य त्रियटो नाम वै चितवृत्ति वने नित्यम् फाल कुद्दाललाङ्गुली तं वृद्धम् बालानादाय जारकान् अब्रवीत् ब्राह्मणम् वाक्यम् स्त्रीणाम् भर्ता हि देवता अपास्य फालम् कुद्दालम् कुरुष्वेव वचनम् मम रामम् दर्शय धर्मज्ञम् यदि किञ्चिद्वाप्स्यसि तद्भार्याया वच श्रुत्वा शाटीमाच्छाद्य धुश्छदानम् सप्राप्ति शतपन्थानम् यत्र रामनिवेशनम् भृग्भङ्गीराष्टमम् दीप्त्या त्रियटम् जनसंसदि आपञ्चमाय कक्षाय नैतम् कश्चिद् अवारयत् स राममासाद्य तदा निर्धनो बहु राजपुत्र महावल क्षितमृत्तिर्वने नित्यम् पत्यवेक्ष स मामिति तमुवाच परिहास समन्वितं गवां सहस्रमप्येकम् न च विश्राणितं मया परिक्षिपयसि दण्डेन यावत् तावदवाप्स्यते स चाटीं परित्यक्कट्याम् संभ्रांते परिवेश्यताम् अविध्यदण्डं चिक्षेप सर्वप्राणेन वैगतः सज्जित्वा सरयुपारं दण्डता करच्यतः गोव्रजे बहु स्री अपातो क्षणसन्निधौ तम् परिष्वज्य धर्मात्मा आतस्मात् सरयुतटात् अनयामासे स्त्री यथस्याश्रमं प्रति उवाच च तदा राम तम् गायम् अपि सान्त्वयन् मञ्जुर्न खलु कर्तव्य परिहासो गुणीष्व किञ्चेदपरम् व्यवस्य व्यवस्यति ब्रवीमि तत्त्वेन न से स्म यन्त्राणाम् धनम् नियद्यम विप्रकारणात् भवत्सु सम् प्रतिपादनेन मया जितम् च वशस्कारम् भवेत् तथः स्वार्य श्रीयटो मामुनि गवामनेकम् प्रतिगृह्य मोदित यशो बल प्रीतिसुखोपब्रूहिणी तदा शेष प्रत्यवदन् महात्मनः स चापि राम प्रतिपूर्णपुरुष महधनम् धर्मबलै उपार्जितम् नियोजनाय ससुरु जिरत् यथा सम्मानवच प्रचोदित द्विज सुर धृत्यजनोत्सव तदा दरिद्र भीक्षाचरणच यो भवेत् न तत्र कश्चिन्न तर्पितो यथा सम्माननन्दन सम्भ्रमयि इत्याशिमद रामायणे वाल्मीकि अधिकारे योज्याकाण्डे द्वाया त्रिंशः सर्गः श्रीसीता रामचन्द्रार्वमस्तु